नारदपुराणम् पूर्वार्थम् अध्यायम् तर्टि सनक उवाच प्रायश्चित्तविधिं वक्ष्ये शृणु नारदसाम्प्रतम् प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेद प्रायश्चित्तविहीनैस्तु यत्कर्म क्रियते मुने तत्सर्वम् निष्फलम् प्रोक्तम् राक्षसैः परिसेवितम् कामक्रोधविहीनैश्च धर्मशास्त्रविशारदैः प्रष्टव्या ब्राह्मणा धर्मं सर्वधर्मफलेच्छुभिः प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखैः नन्यष्पुनन्दिविप्रेन्द्र सुराभाण्डमिवापगाः ब्रह्म च सुरापी गुरुतल्पगफ महापातकिननस्त्वेदे तत्संसर्गी च पञ्चमः यस्तु संवत्सरं ह्यतैः शयनशनभोजनैः संवसेत्सह तं विद्यात्पदिदं सर्वकर्मसु अज्ञानाद्ब्राह्मणम् हत्वा चीरवासा जडी भवेद स्वेनैव हदविप्रस्य कपालमपि धारयेद् तदभावे मुनिश्रेष्ठ कपालं वान्यमेव वा तद्रव्यं ध्वजदण्डे तु वनचरो भवेद वन्याहारो वश्येत्तत्र वारमेकं मिदाशनः सम्यक् सन्ध्यामुपासीदत्रिकालं स्नानमाचरेद् अध्ययनाध्यापनादोन्वर्जयेत् संस्मरेद्धरिं ब्रह्मचारी भवे नित्यं गन्धमाल्यादिवर्जयेद तीर्थान्यनु वसेच्चैव पुण्याश्चावाश्रमांस्तथा यदि वन्याैर्न जीवेद ग्रामे भिक्षां समाचरेद द्वादशाब्दं व्रतं कुर्यादेवं हरिपरायणः ब्रह्म शुद्धिमाप्नोति कर्मार्हश्चैव जायते व्रतमध्ये मृगैर्वापि रोगैर्वापि निषोधितः गोनिमित्तं द्विजार्थं वा प्राणान्वापि परित्यजेत यद्वा दद्याद्विजेन्द्राणां गवामयुदमुत्तमं ये देष्वन्यतमं कृत्वा ब्रह्म सा शुद्धिमान् भूयाद दीक्षितं क्षत्रियं गत्वा चरेद्धि ब्रह्म व्रतम् अग्निप्रवेशनं वापतनं तथा दीक्षितं ब्राह्मणं हत्वा द्विगुणं व्रतमाचरेद आचार्यादि वधे चैव व्रतमुक्तं च दुर्गुणं हत्वा दु विप्रमात्रं चरेत् संवत्सरं व्रतं एवं विप्रस्य गदितप्रायचित्तविधिर्द्विजा द्विगुणं क्षत्रियस्योक्तं त्रिगुणं दु विषस्मृतं ब्राह्मणं कं दीय शूद्रस्तं मुश्शल्यं विरुद्धुर्बुधाः राज्ञैव शिक्षा कर्तव्या यदि शास्तेषु निश्चयः ब्राह्मणीनां वधेत्त्वर्धं पादस्यात् कन्यका वधेत् हत्वा त्वनुपनीतांश्च तथा पादव्रतं चरेद हत्वा तु क्षत्रियं विप्रषडब्धम् चरेत् संवत्सरम् त्रयम् वेश्यम् शूद्रम् हत्वादुवत्सरम् दीक्षितस्य स्त्रियम् हत्वा ब्राह्मणी चाष्टवत्सरान् ब्रह्महत्या व्रतम् शुद्धो भवति निश्चितम् प्रायश्चित्तम् विधानम् तु सर्वत्र मुनिसत्तमा वृद्धातुरस्त्री बालानामर्धमुक्तम् मनीषिभिः गौडी पैष्ठीरमाध्वी च विज्ञेया त्रिविधा सुरा चादुर्वर्ण्यारपेया स्यात् तथा स्त्रीभिश्च नारद क्षीरं कृतं वा गोमूत्र मेदेष्वन्यतमं मुनि स्नात्वार्द्रवासानि यतो नारायणमनुस्मरन् पक्वाय सन्निभं कृत्वा पिबेच्छैवोदकं ततः तत्तु लौहेन पात्रेण ह्यायसेनाथवा पिबेद ताम्रेण वाधं पात्रेण तत्प्रीत्वा मरणं व्रजेत सुरापी शुद्धिमाप्नोति नान्यथा शुद्धिरिष्यते अज्ञानादात्म बुद्ध्यादु सुरा पीत्वा द्विजश्चरेत् ब्रह्महत्याव्रतं सम्यक्त परिवर्जितः यदि रोगा निवृत्त्यर्थमौषधार्थं सुरां पिबेदर् तस्योपनयनं भूयस्तथा चान्द्रायणद्वयं सुरा संस्पृष्टपात्रं तु सुराभाण्डोदकं तथा सुरापानसमं प्राहुस्तथा चन्द्रस्य भक्षणम् तालं च पानसं चैवद्राक्षं कार्जुरसम्भवम् माधुकशैलमारिष्ठं मैरेयं नालिके रजं गौडी माध्वी सुरामध्यमेवमेकादश स्मृताः ये विप्रो न पिभेद्वै कदाचन यदेष्वन्यतमं यस्तु पिबेदज्ञानदो द्विजः तस्योपनयनं भूयस्तप्तकृच्छ्रं चरेत्तदा समक्षं वा परोक्षं वा बलाच्चौयण वा तथा परस्वानामुपादानं स्तेयमित्युच्यदे बुधैः सुवर्णस्य प्रमाणं तु मन्वाद्यैः परिभाषितम् वक्ष्ये गवाक्षागद विप्रेन्द्रप्राय चेज्जिदोक्तिसाधनं गवाक्षागदमार्ताण्डरश्मिमध्ये प्रदृश्यते त्रसरेणुप्रमाणं तु रज इत्युच्यते बुधैः त्रसरेण्वष्टगं निष्कस्तत्रयं चाज सर्षपः गौर सर्षपस्तर्त्रयं षष्टकं यव उच्यते यवत्रयं कृष्णलस्यान् माषस्तत्पञ्चकं स्मृतः माषोडशमानं स्यात् सुवर्णमिति नारद अत्वा ब्रह्मस्वमज्ञानाद्वादशाब्दं तु पूर्ववद कपालध्वजहीनं तु ब्रह्महत्या व्रतं चरेद गुरूणां यज्ञकर्तॄणां धार्मिष्ठानां तथैव च श्रोत्रियाणां द्विजानं तु हृत्वा हेमैवमाचरेत् कृतानुतापो देहे च सम्पूर्णे लेपये धृतं करीषच्छादिदो दग्धस्तेयपाद्विमुच्यते ब्रह्मस्वं क्षत्रियो हृत्वा पश्चात्तापमवाप्यज पुनर्ददाति तत्रैव तद्विधानं शृणुष्व तत्र सान्तपनं कृत्वा त्वा त्वा त्वा त्वा त्वा त्वा त्वा भवेद रत्नासन मनुष्यस्त्रीधेनुभूम्यादिकेषु च सुवर्णस्सहृषेष्वेषु प्रायचितार्थमुच्यते प्रसरेणु समं हेम कृत्वा कुर्यात्समाहितः प्राणायामद्वयं सम्यक् तेन शुद्धच्छति कुर्या धृत्वा निष्कप्रमाणकम् प्राणायामाश्च चत्वारो राजसर्षपमात्रके गौरसर्षपमानम् तु कृत्वा हेम विचक्षणः स्नात्वा च विधिवजप्याद् सहस्त्रहं यवमात्रसुवर्णस्य स्तेया शुद्धो भवेद्विजः आसायं प्रादरा जप्त्वा वै वेदमादरं हेम कृष्णलमात्रं दुहृत्वा सान्तपनं चरेत माषप्रमाणे हें नस्तु प्रायच्चित्तं निगध्यते गोमूत्रपक्वयव भुग्वर्षेणैकेन शुध्यदि सम्पूर्णस्य सुवर्णस्य स्तेयं कृत्वा मुनीश्वर ब्रह्मशक्त्या व्रतं कुर्याद्वादशाब्दं समाहितः सुवर्णमानन्यूनेतु रजतस्तेयकर्मणि कुर्यात् सां तपनं सम्यगन्यथा पतितो भवेद् दशनिष्कान्तपर्यन्त मूर्धूं निष्कचतुष्टयाद अत्वा च रचतं विद्वान् कुर्याच्चान्द्रायणं मुने दशादिशदिष्कान्दं यस्तेयि रजतस्य तु चान्द्रायणद्वयं तस्य प्रोक्तं पापविशोधकम् शदादूर्ध्वं सहस्रान्दं प्रोक्तं चान्द्रायणत्रयं सहस्रादधिकस्ते ये ब्रह्महत्या व्रतं चरेद कांस्य पित्तलमुख्ये शुक्ययस्कान्ते तथैव च सहस्रनिष्कमानेदुः परागं प्रायश्चित्तं तु रत्नानां स्ते ये च प्रायश्चित्तमुदीर्यधे अज्ञानान्मादरं गत्वा तत्सपत्नीमधापि वा स्वयमेव स्वमुष्कं तुचिन्द्यात् चिन्त्यात् पापमुदीरयन् हस्ते गृहीत्वा मुष्कं तु गच्छन्द्वैर् नैहृदिं दिशं गच्छन् मार्गैः सुखं दुःखं न कदाचिद् द्विचारयेत् अपश्यन् गच्छदो गच्छेत् प्राणान्दं यः स शुध्यति मरुत्प्रपतनम् वापि कुर्यात्पापमुदाहरन् स्ववर्णोत्तमवर्णस्त्री गमने त्वविचारतः ब्राह्महत्यावृतं कुर्याद्वादशाब्दं समाहितः अमत्याभ्यासदो गच्छेत् सवर्णां चोत्तमां तथा कार्यशवह्निना दग्धशुद्धिं यादि द्विजोत्तम द्वेदसेकात् पूर्वमेव निवृतो यदि माधरि ब्रह्महत्या व्रतं कुर्या द्रेदसेकेऽग्निदासनं सवर्णोत्तमवर्णासु निवृतो वीर्य सेचनाद ब्रह्महत्या व्रतं कुर्यान्नवाब्दान्विष्णुतत्परः वैश्यायां पितृपत्न्यां तु षडब्धं व्रतमाचरेद गत्वा शुध्वां गुरोर्भार्यां त्रिवर्षम् व्रतमाचरेद मातृष्वसारं च पितृष्वसारमाचार्यभार्यां श्वशुरस्य पत्नीं पितृव्यभार्यां मधमाधुलानीं पुत्रीं च गच्छेद्यदि काममुग्धः दिनद्वये ब्रह्महत्याव्रतं कुर्याद्यथाविधि एकस्मिन्नेव दिवसे बहुवारं त्रिवार्षिकम् एकवारं गदे श्याब्दं व्रतं कृत्वा विशुध्यति दिनत्रये दी। गदे वाक्मिदग्धशुध्येद नान्यथा चाञ्जालीं पुष्पसीं चैव स्नुषां च भग्नीं तद्धा मित्रस्त्रियं शिष्यपत्नीं यस्तु वै कामदो व्रजेद ब्रह्महत्यां व्रतं कुर्यात् स षडब्धं मुनीश्वर अकामदो व्रजेद्यस्तु सोऽब्धकृत्रं समाचरेद महापादगिसंसर्गे प्रायचित्तं निगद्यते प्रायच्चित्तविशुद्धात्मा सर्वकर्मफलं लभेद यस्य ये येन भवत्सङ्गो ब्रह्महां धिचतुर्ष्वपि तत्तद्व्रतं सनिवृत्य शुद्धिमान् पोत्य संशयम् अज्ञानात् पञ्जरात्रं संगमे सङ्गमेभिः करोति यः चरे सम्यगण्यधा परितो भवेद् द्वादशाखे तु संसर्गे महासान्तपनं स्मृतं सङ्गं कृत्वार्धमासं तु द्वादशाखमुपावसेद परा गोमास संसर्गे चान्द्रमासत्रये स्मृतं कृत्वा सङ्गं तु षण्मासं चरे चान्द्रायणद्वयं किञ्चिन्न्यूनाद सङ्घे दुषण्मासव्रतमाचरेदयेदच्च त्रिगुणं प्रोक्तं ज्ञानात्सङ्घे यथाक्रमं मण्डूकं न कुलं काकं वराहं मूषकं तथा मार्जाराजाविकं स्वानम् हत्वा कुक्कुडकं तथा कृच्छ्रार्धमाचरेद्विप्रोदिकृच्छ्रम् शाश्वखचरेधप्त कृच्छ्रं करिवधे पराकं गोवधे स्मृतं कामदो गोवधे गोवधेनैव शुद्धिर्दष्टा मनीषिभिः पानशय्यासनाद्येषु पुष्पमूलफलेषु च भक्ष्य भोज्यापहारेषु पञ्चगव्यविशोधनं शुष्ककाष्ठतृणानां च द्रुमाणां च गुडस्य च चा। चर्मवस्त्रामिषाणां च त्रिरात्रं स्यादभोजनं टिट्टिफं चक्रवाकं च कंसं कारं डवं तथा पुलूकं सारसं चैव प्रकोदं जलपादकं सुखं चाषं बलाकं च चा शिशुमारं च कच्छपम् यदेष्वन्यतमं हत्वा द्वादशाहमभोजनं प्राजापत्यव्रतं कुर्याद्रेदो विन्मोत्रभोजने चान्द्रायणत्रयं प्रोक्तं शूद्रोच्छिष्टस्य भोजने रजस्वलं चाण्डालं महापादगिनं तथा शूदिकां पतितं चैव उच्छिष्टं रजकाधिकम् स्पृष्ट्वा स चैलं स्नायीत हृदं सम्प्राशेयत्तर्था गायत्रीं च विशुद्धात्मा जपेदष्टशतं द्विजं यदेष्वन्यतमं स्पृष्ट्वा अज्ञानादद्यधिभोजने त्रिरात्रो पोषणाच्युद्येत् पञ्चगव्याशनद्विज स्नानदानजपादौ च भोजनादौ च नारद येषामन्यतमस्याभिशब्दं यशृणु ये या द्वदेद उद्वमे मं न तत्रात्वा चोपवसेत्तथा द्विधियेष्कृतं प्राश्यशुद्धिमाप्नोदि नारद व्रतादिमध्ये यद्येषा शृणु या अष्टोत्तरसहस्रं तु जपे द्वै वेदमादरं पापानामधिकं पापं द्विज दैवद निन्दनं न दृष्ट्वा निष्कृदिस्तस्य सर्वशास्त्रेषु नारद महापादकतुल्यानि यानि प्रोक्तानि सूर्यभिः प्रायश्चित्तं तु तेषां च कुर्यादेवं यथाविधि प्रायश्चित्तानि यः कुर्यानारायणपरायणः तस्य पापानि नश्यन्ति ह्यन्यथा पतितो भवेद् यस्तु रागादिनिर्मुक्तो ह्यनुतापसमन्वितः सर्वभूतयया युक्तो विष्णुस्मरणतत्परः महापादकयुक्तो वा युक्तो वा सर्वपादकैः विमुक्त विष्णुपरो यतः नारायणमनां द्यन्तं विश्वाकारमनामयं यस्तु संस्मरते मर्त्यः समुक्तः पापकोडिभिः स्मृतो वा पूजितो वापि द्यादप्रणमितोऽपि वा नाशयत्येव पापानि विष्णोर्हृद्गमनःसतां सम्पर्काद्यदि वा मोहाद्यस्तु पूजयदे हरिं साकृत्सं सप्रयादि हरेः पदं क्लेश संचयाः स्वर्गादिभोगप्रा भक्तिस्तु तस्य विप्रानुमीयते मानुषं दुर्लभं जन्म प्राप्यते यैर्मुनीश्वर तत्रापि हरिभक्तिस्तु दुर्लभा परिकीर्तिता तस्मात्तडिल्लता लोलं मानुष्यं प्राप्य दुर्लभम् हरिं सम्पूजयद्भक्त्या पशुपाशविमोचनम् सर्वेऽन्तराय नश्यन्ति जायते परमोक्षं लभेश्चैव पूजिते दुजनार्दने जनार्दने धर्मार्थकाममोक्षाख्या पुरुषार्थाः सनातनाः हरिपूजापराणां तु सिद्ध्यन्ति पुत्रधारगृहक्षेत्रधनधान्याभिधावतीं दब्ध्वे मामनुषिं वृत्तिं रेरे दर्पं तुमाकृधाः सन्त्यज्य कामं क्रोधं च लोभं मोहं मदं तथा परापवादं निन्दां च भजध्वं भक्तिदोहरिं व्यापारान् सकलां सत्यक्र वा पूजयध्वं जनार्दनं निकटायेव दृश्यं ते कृतान्तनगरद्रुमाः यावन्नायादिमरणं यावन्नायादि वैजरात् यावन्ेन्द्रियवैकल्यं तावदेवा चर्ये धरिं धीमान्न विनश्वरे नित्यं सन्निहितो मृत्युसम्पदत्यन्तचञ्चला आसन्नमरणो देहस्तस्मदर्पं विमुच्यत संयोगा विप्रयोगान्ता सर्वं च क्षणभङ्गुरं ये तत् ज्ञात्वा महाभागपूजयस्व आशया व्यथदेचैव चैव मोक्ष भक्त्या यजति यो विष्णुमहापादगवानपि सोऽपियादिपरं स्थानं यत्र गत्वा न शोचति सर्वतीर्थानि यज्ञाश्च साङ्गावेदाश्च सप्तमा नारायणार्चनस्यैदे कलां नार्हं दिषोडशीं किं वै वेदैर्मखैशास्त्रै किं वा तीर्थनिषेवणैः विष्णु विष्णुभक्तिविहीनानां किं तपोभिर्व्रदैरपि यजन्ति ये विष्णुमनन्दमूर्तिं निरीक्ष्य चाकारगदं वरेण्यं वेदान्तवेद्यं भवरोगवैद्यं ते यान्ति मर्त्या पदमच्युतस्य अनादिमात्मानमनन्दशक्तिमाधारभूतं जगदसुरेढ्यम् ज्योतिस्वरूपं परमच्युदाख्यं स्मृत्वा समभ्यदि नरः सखायम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे प्रायश्चित्तविधिर्नामत्रिंशोऽध्यायः ॐ